श्रीमद्भागवत् महापुराणं सप्तं स्कन्ध द्वितीयोऽध्यायः विषिण्णरत्नकवचं बिभ्रष्टाभरणस्रजं सर्निर्भिन्नहृदयं शयानम् असिगाभिलं प्रकीर्णकेशं धस्ताक्षं रभसादक्षतं रजकुण्ठमुखाम्भोजं छिन्नायुद्भुजं वृधे उशीनरेन्द्रं विधिना तथा कृतं पतिं महिष्य प्रसमीक्ष्य दुःखिताः हता स्म नाथेतिकरैरूरोभृषं ग्रन्त्यो मुहूर्तं पदयोरुपापतन् रुदद्य उज्जैर्दयिताङ्ग्रिपङ्कजं सिञ्चन्त्य अस्त्रैकुचकुङ्कुमारुणैः विश्रस्तकेशाभरणासुचं नृणां आक्रन्दनया विलेपिरे अहो विधात्रा करुणेन न प्रभो भवान् प्रणीतो दिगगोचरां दशाम् उसीनराणाम् असीं वृत्तिद पुरा कृतोऽधुना येन शुचां विवर्धनं त्वया कृतज्ञेन महीपते कथं विनाश्याम् सुहित्तमेन ते तत्रानुयानं तव वीरपादयोः शुश्रूशुचीनां दिशि यत्र एवं बिलपतीनां वै परिगृह्य मृतं पतिम् अनिक्षतीनां निर्हारम् अर्कोस्तं शन्यवर्तत तत्र प्रेतबन्धूनाम् आश्रित्य परिदेवितम् आहतान् बालको भूत्वा यमस्वायमुपागतः यमुवाच अहो अमीषां वयसाधिकानां विपश्यतां लोकविधिं विमोह यत्रागतस्तत्र गतं मनुष्यं क्षयं सधर्मा अपि शोचन्त्यपार्थम् अहो वयं धन्यतमा यदत्र त्यक्तापितृभ्यां न विं विचिन्तयाम अभक्षमाणा स ईक्षिता रक्षति यो हि गर्भे य ईक्षये सयतीदमव्ययो य एव रक्षत्य वलुम्पते तस्या बलाक्रीडनमाहुरेषु तु चराचरं नैग्रहसङ्ग्रहे प्रभो पथिच्युतं तिष्ठति दृष्टरक्षितं गृहे स्थितं तद्विहतं विनश्यति जीवत्यनाथोऽपि तदीक्षितो वने गृहेऽपि गुप्तोऽसि हतो न जीवति भूतानि तैस्तैन्यजयोनिकर्मभि भवन्ति कालेन भवन्ति सर्वशा न तत्र चात्मा प्रकृतावपि स्थित तस्या गुणैरन्यतमो निबध्यते इदं शरीरं पुरुषस्य मोहजं यथा पृथग्भौतिगमीयते गृहं यथोदकैः पार्थिवतैजसेर्जनकालीनजातो भृकृतो विनश्यते यथा नलो दारुसुभिन्नयीयते यथा निलो देहगतः पृथक् स्थितः यथा नमः सर्वगतं न सज्जते तथा पुमान् सर्वगुणाश्रयपरम् सुयज्ञोऽनन्वयं शेते गूढायं न शोचथ यः श्रोतायोनुवक्तेः सन्न दृश्येत कर्हि चेन् न श्रोतानानुवक्तायं मुख्योऽप्यत्र महानशु यस्त्विहेन्द्रियवानात्मा स चान्यप्राणदेहयोः भूतेन्द्रियमनोलिङ्गान् देहानुजावचान् विभू भजन्त्योऽसृज ते शन्यच्चापि स्वेन तेजसा यावल्लिङ्गान् वितोषात्मा तावत्कर्म निबन्धनं ततो विपर्ययक्लेशो मायायोगोऽनुवर्तते वितथाभिनिवेश्योऽयं यद्गुणेश्वरथ दिग्वचः यथा मनोरथ स्वप्न सर्वमेन्द्रियकं मृषाम् अथ नित्यमनित्यं वा नेहशोचन्ति तद्विदः नान्यथा सकृति कर्तुं स्वभाव शोचतामिति लुब्धको विपिने काचिन् पक्षिणां निर्मितोऽन्तकः वितत्य जालं विदधे तत्र तत्र प्रलोभयन् कुलिङ्गमिथुनं तत्र विचरस्तं दृश्यत तयो पुलिङ्गी सहसा लुब्धकेन प्रलोभितां सा सज्जत सृजस्पन्यां महिषी कालियन्त्रितां पुल्लिङ्गस्तां यथापन्नां निरीक्ष्य भृशुदुःखितः स्नेहादकल्पः कृपणः कृपणां परदेवयत् अहो अकरुणो देव श्रिया करुणया विभुः कृपणं मानु शोचन्त्यादीनया किं करिष्यते कामं नेतु मां देव किमर्थेनात्मनो हि मे दीनेन जीविता दुःखम् अनेन विधिरायुषां कथं त्वजातपक्षांस्तान् मातृहीनान् विभर्म्यहं मन्दभाग्या प्रतीक्षन्ते नीडे मातरं प्रजाः देवं कुलिङ्गं बलपन्तमाराज प्रियावियोगातुरमसु श्रुकण्ठम् स एव तं शाकुनिकशरेण विव्याधकालप्रहितो विरीदः एवं यूयमपश्यन्त्य आत्मापायम् अबुद्धयः नैनं प्राप्स्य स शोचन्त्य पतिं वर्ष स तैरपि हिरण्यकस्य पुरुवाच बाल एवं प्रवदति सर्वे विस्मृति स्त ज्ञातयो मे निरे सर्वम् अनित्यम् अथोत्थितं यम् एतदुपाख्याय तत्रैवान्तरधीयत ज्ञातयोऽपि सुयज्ञस्य चक्रुर्यस्तां परायिकं ततः शोचतमायूयं परं चात्मानमेव च क आत्मा क परो वात्र स्वीयपारक्ययैव वाम् सपराभिर्निवेशेन विना ज्ञानेन देहिनां नारजुवाच इति दैत्यपतिर्वाक्यं द्विराकर्णसंस्नुषां पुत्रशोकं क्षणात् त्यक्त्वा तत्त्वे चित्तमधारयत् ते श्रीमद्भागुते महापुराणे प्रमुां सहितायां सप्तं स्कन्धे द्वितीशोकापनम्नां